मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् 16 सिक्स्टीन् गर्भागारयात्रामाहात्म्यवर्णनम् श्रीगणेशाय नमः भुशुण्ड्युवाच गर्भालयस्य यात्रायामाहात्म्यं कथयाम्यहम् शृणुध्वं भाग्यसंयुक्ता देवे शास्तत्समासदः मूर्खः कोऽपि पुरा विप्रो वङ्गदेशे बभूवः विष्णुदत्त ख्यातः पशुतुल्यस्वभावदः तं दृष्ट्वापितरौ तस्य काश्यपौ दुःखसंयुतौ कश्यपं जग्मदुस्तेन श्रुतो वृत्तान्त उल्बणः गर्भागारस्यमाहात्म्यं कथयामास कश्यपः पूर्वद्वारभवं तौ तं प्रणम्य ययदुर्गृहं पुत्रं गृह्य मयूरेशं जग्मदुर्भक्तिसंयुक्तौ यात्रां पुत्रेण संयुक्तौ चक्रदुःपरमादराद गर्भालयस्य पूर्वस्तद्वारकाम् बुद्धिमालभत सम्पूज्य स महाविद्याम् ज्ञानयुक्तो बभूवः ततो हर्षसमयुक्तौ पितरौतम् प्रगृह्य च स्वाश्रमं जक्मदुर्देवा विस्मितौ पुत्रचेष्टया तदो बुद्धियुदं देवं गणेशमभजन् परम् अन्ते कैलाससंस्थं तं गणपं जग्मुरादराद तत्रैव विविधान् भोगान् पुनर्भुक्त्वा महेश्वराः मयूरे ब्राह्मणाः क्षेत्रे बभूव शीलसंयुताः तत्र विघ्नेश्वरं नित्यमभजन् भक्तिभावतः अन्ते स्वानन्दका भूत्वा ब्रह्मभूता बभूविरे एवं नानाजना देवासिद्धिं प्राप्ता मयूरके पूर्वद्वारस्थयात्रा विधानदः तत्र वक्तुं महादेवा शक्यते न कदाचन अधः सङ्क्षेपदप्रोक्तं पूर्वद्वारयशोमलम् अधुना गर्भागारस्य वक्ष्यामि शृणुध्वं चैकचेतसः काश्मीरे शूद्रजात्यां खक् पापकर्मा बभूव च देवालयम् समालोक्या भजद्देवान् सुदारुणः कदा वैश्यं समालोक्य द्रव्ययुक्तम् प्रलोभतः तमनुप्रययौ दुष्टप्रखन्तुं खड्गधारकः वैश्योऽपि यत्नमास्थाय सार्धयुक्तो बभूवः तथापि पापकर्मा तं न मुमोच कदाचन वैश्यसमागतः सार्थायर्जनैः क्षेत्रे मयूरके शूद्रस्तत्र समायादो जिकां तत्र यात्रां चकारासौ वश्यो भावसमन्वितः शूद्रस्वयं स्थितश्चैव यात्राहीनः खलात्मवान् द्वितीये दिवसे सर्वे दक्षिणद्वारकां परां यात्रां चक्रुस्ततः शूद्रस्तेषा मनुययौ कलः गर्भागारस्थितान् पूज्य दक्षिणद्वारपाञ्जनाः प्रमोदाद्यास्ततः सर्वे पुरो जग्मुर्महेश्वराः शूद्रस्तत्र समासीनः पुनः स्वस्थानमाययौ गणेशम् पूज्य पापात्मा पुण्यवान् स विचारमकरोचित्ते मया पापानि नित्यशः अहो कृतानि तान्येव पीडयिष्यन्ति मां किल अहो देवालये देव मया संखंडिता मुधा जना सम्पूजयन्तस्तान् किं कृतं पापरूपिणाम् एवं विचार्य स्वस्थाने त्यक्त्वा वैश्यं जगामः काश्मीरममरान् सर्वानभजद्भ्रिसंयुधः अे जगामकैलासे गणेशं भक्त्रिसंयुधः अभजत् स पुनर्देवान् मयूरे वैश्यजो भवद गणेश्वरं तत्र देवं क्षेत्रसंन्यासमार्गदः अभज्चान्तकाले स तद्देहे लीनतां ययौ नानाविधा जना एवं ययुसिद्धिं सुरेश्वराः तत्र वक्तुं न शक्यन्तु मया भवति अधः परं प्रवक्ष्यामि पश्चिमद्वारसंश्रितं माहात्म्यं यत्पुराजादं गर्भागारस्य सौख्यदं विदर्भे क्षत्रिह्यः कश्चिद्राज्यहीनो बभूवः क्षत्रियो पीडितो भृशम् वनं गत्वा स राजर्षिशोकयुक्तो बभूवः तत्रा जगामदेवर्षिर्नारदः परमार्दविद राज्ञा सम्पूजितो योगी हर्षयंश्च जगादतं गच्छेत्रे मयूरे तदसिद्धिमवाप्स्यसि गर्भागारस्य राजेन्द्र पश्चिमद्वारसंश्रुदा सिन्धिं पूज्य महाराजो भविष्यसि यथा पुरा एवमुक्त्वा नारदश्च विघ्नेशं संस्मरन् राजा तथा चकारासौ भक्तियुक्ते चेतसा गर्भागारस्य यात्रां स चकारविधिसंयुतः पश्चिमद्वारगामेकां तदस्तत्रैव संस्थितः कौडिन्यनगरे राजा सुबाहुः पीडितो भवत शूलेन दारुणेनैव मृत्युरूपेण देवपाः रात्रौ स्वप्ने महाभीमं पुरुषं स ददर्शः तेन सन्ताडितोऽत्यन्तं मुमूर्च्छ भयसंयुधः पुनः संज्ञायुधं भूप मुवाचपुरुषः परः राज्यं देहि सुदासाय विदर्भदेशसम्भवम् मरिष्यसि न सकुलो नात्र संशयः मयूरेशं समाश्रित्य स्थितं गच्छाधुना कल तं न शूलहीनो बभूवासौ तं जगाम सुदासकम् विदर्भदेशगं राज्यं तं प्रणम्य ददौ परम् स्वराज्यं स जगामैव वैरमुत्सृज्य देवपाह राजासिद्धियुगम् नित्यमभजगणनायकम् अन्ते कैलासगसोऽपि बभूवे कामनायुधः पुनः स ब्राह्मणो जातो मयूरे वर्मसंयुधः गणेश्वरं तत्र नित्यमभजद्भक्तिसंयुधः अन्दे जगामस्वानन्दे गणेशं गणपप्रियः ब्रह्मभूतो भवत्तत्र क्षेत्रवासप्रभावदः एवं नानाजनासिद्धिं पश्चिमद्वारतो ययुः यात्रामात्रेण गर्भागारस्य कदिवदाम्यहम् अधोत्तरस्थितं द्वारं गर्भागारस्य मानदाः चरित्रं तस्य वक्ष्यामि श्रवणात् सर्वसौख्यतम् पाञ्चालदशकः कश्चिद्वैश्यो विषयलम्पडः न बुबोधगदं कालं द्रव्ययुक्तस्वभावतः स्त्रीमां समधिरासक्तो बभूवे नित्यमादराद ये कदा परचक्राद्भयं परं त्वा स्वदेशं वैश्यश्च पपाल सकुटुम्बकः आययौ दण्डकारण्यम् निवासार्थम् भयादुरः तत्र मार्गस्थभावेन क्षेत्रम् प्राप्तं मयूरकम् तद्दिने पश्चिमद्वारयात्राम् चक्रोर्जनाः द्वितीयेह्निसवैश्यस्तु लज्जया संयुदोऽ भवद उत्तरद्वारयात्रार्थमुद्यो भोजनैस्वयं गणेशम् पूजयित्वा स गर्भागारं जगामः पुपूज तत्र वैश्योपि चतुष्षष्टिश्च योगिनीः तदश्रमेण संयुक्तः पुनर्गणपतिं व्ययौ पूजयित्वा जगामसौ यथेष्टं विषयप्रियः तदो बुद्धिश्च वैश्यस्य विपरीता बभूवः तया युक्तो मकेशाना विचारमकरोत् हृदि मया विषययुक्तेन कृतं कर्मभयावहं कागतिर्मरणे मेदु भविष्यति सुदारुणा अहोक्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते विपरीता मदिर्जाधा ममापि दुष्टचेदसः योगिनीनां दर्शनेन भवे नरः योगप्रियस्तथाहं वै जातः सत्यं च शास्त्रगं योगिनीसंयुधं धुण्ढिं वैश्यस्वधर्ममास्थितः अभजन्नित्यमानन्दान्निन्दयन्विषयान् सदा अन्दे जगामकैलासे गणेशे कामनायुधः तत्र भुक्त्वा महाभोगान् पुनः पपादभूतलं मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुधः क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा अन्दे अन्ते विघ्नेश्वरस्सोऽभ्रह्मभूतो बभूवः पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः एवं नानाजनास्तत्र ययुसिद्धिमनुत्तमां तत्रैवं कदिवो ब्रूयाम् सङ्ख्यातुं न प्रशक्यते प्रवक्ष्यामि सम्पूर्णां तु महेश्वराः गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुदाम् आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूवः पितरौ संमृतौ तस्यानाधो बभ्रामभूतले विषयेषु विशेषेण प्रीतियुक्तस्तधामराः भ्रमन् समागदसोऽपि मयूरे दैवगौरवाद तत्र कश्चिद्विजस्तुज्ञसेवार्थम् क्षेत्रगो भवद तम् गृह्य ब्राह्मणो गर्भागारयात्राम् चकारः संसर्गण्विजशा सौ चकार चकारदुष्टधी स्वयं विद्यार्जा यथेब्राण समालोक्य दक्षिणस्थ जगामह तत्रमार्गे पतासौ तथा विद्वारको भवत प्रमोदादीन् विषये निःस्पृहो भवत पश्चिमे सिद्धिमालोक्य भाग्ययुक्दो महेश्वरः योगिनीस्त आलोक्य पुण्यशीलो बभूवः एवं यात्रां पुनस्वगृहगो भवत ततोद्विजं प्रणम्यासौ स्वदेशं तु जगामः तं तादृशं विलोक्यैव विस्मिताः सुहृदो भवन् विवाहं कारयामासु सुहृदस्तस्य धीमदः सगणेशं विचिन्द्यैवा भजद्गर्भाश्रितं तदा अन्दे कैलासो भूत्वा गणेशं तत्र चाभजद भुक्त्वा भोगान् पपातास्सौ मयूरे ब्राह्मणो भवद गणेश्वरं तत्र देवा अभजन् अन्दे अन्ते स्वानन्तकस्सो विभ्रमभूतो मयूरे गर्भयात्रायां निरता सहृदप्यहो ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यदे गर्भागारस्य माहात्म्यं शृणोदिद्वारजं द्विदं पठेद्वा तस्य विघ्नेशो दददे चेप्सितं फलं ॐ तत्सदिति पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विगडचरिते गर्भागारयात्रा माहात्म्यवर्णनं नाम षोडशोऽध्यायः ओम्